नमो नमः नमस्कारः सर्वेषां स्वागतं अहं सम्यक् अस्मि भवन्तः सर्वे अभ्यासविषये कथं सर्वे पठितवन्तः वा अस्तु आरम्भं कुर्मः ध्यान ध्यानमन्त्रम् आरम्भं करोति वा जयन्ति भगिनी भवती वदति वा आम् आम् पार्ताय mm. <coughs> प्रतिबोधितां भगवता नारायणेन स्वयम् व्यासेन धृतिताम् मुनिनां मध्ये महाभारतं अद्वैतामृतवर्षिणीम् भगवतीम् अष्टादशाध्यायिनी अम्ब त्वामनुसन्दमि भगवद्गीते भवद्भेषिणी नमोऽस्तु व्यास व्यासविशालबुद्धे उल्लारविन्दाय तपत्र नेत्र येन द्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमय प्रदीपः प्रपन्नपारिजाताय तोत्रवेत्रैकपानये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः सर्वोपनिषदो गावो ोक्ता गोपालनन्दनः पार्थो वत्सुधिर्भोक्ता दुःखम् गीतामृतम् महत् असुदेवसुतम् देवम् कंसचानूरमर्दनम् देवकी परमानन्दम् कृष्णम् वन्दे जगुरुम् उत्तमं हा धन्यवादः धन्यवादः पुनः एकवारं तेषां स्वागतं वयम् आरम्भं कुर्मः अस्माकम् अधुना लोट् लकारः इति विषयः प्रचलत् अस्ति हा तत् लोट् तत्र वयं कृतवन्तः आरम्भं वयं कृतवन्तः तत्र लोट् लकारस्य विषये प्रथमपुरुष एकवचन प्रथमपुरुष बहुवचनं मध्यमपुरुष एकवचन रूपाणि कथं भवति तत् वयं कृतवन्तः हा अधुना पुनः एकवारं किञ्चित् अत्र बहुदिनानन्तरं वयं सर्वे अत्र सम्मिलिताः तथा पुनः एकवारं किञ्चित् सारांशरूपेण वदामि लोट्लकार कदा भवति तत्र आदेशरचनानि भवितुमर्हति वा तत्र तीव्र इच्छायाः प्रदर्शनं भवति तत्र अनुमतिमपि अस्ति पर्मिशन् इति तर याचना अतर् निश्चयेे अहम वदानी, एत निश्ये, निश्ये क्या वा निशय निशयत् तुक्टे तर्डर्जेशन अनमु वि लोटे अंतर्भूता अत्य विषए एक प्रत्ययस्य कथं भवति तत् प्रत्ययस्य विषये एकवारम् अहम् स्क्रीनशेयर कृत्वा दर्शिष्यामि अनन्तरं वयम् एकवारं तस्य अपि अभ्यासः कुर्मः पश्यन्तु एवं स्मरति वा सर्वे लोट्लकारस्य कृते प्रत्ययाः सन्ति तु ताम् अन्तु अनन्तरम् मध्यमपुरुष तत्र प्रत्यय नास्ति त्वम् पठ त्वम् इति अस्ति अनन्तरं तम् आनी आव आम अत्र प्रत्ययेषु प्रथमपुरुषस्य विषये एकवचनान्तं तु वदतु बहुवचनान्तम् अन्तु वदन्तु हा मध्यमपुरुष वद वद इति एतावत्पर्यन्तं वयं कृतवन्तः अधुना अद्यदिने वयं किं कुर्मः एकवारं पुनरावर्तनं कुर्मः अनन्तरं पुस्तके यद्दत्तमस्ति ततपि वयं पश्यामः पश्यन्तु अत्र यदा भव इति धातु स्वीकृत्य भू तत्र भव इति रूप तत्र कथं भवति तु ताम् अन्तु इत्युक्ते भवतु भवतां भवन्तु मध्यमपुरुष कथं भवति भव भवतं भवत अहं किं करोमि तत्र धातुरूपं धातुरूपी अङ्गस्य रूपं धातुरूपी अङ्गं धातु भेदः कः तत्र प्रत्ययः इति तु अस्ति परन्तु यदा भू इति धातु वदामि भूयोगतु इति न भवति तत्र विकरणप्रत्ययाः सन्ति गणानुसारेण धातूनां विभाजनमस्ति एतत् सर्वं व्याकरणस्य अंशः तेन भवति भू इति रूपं तस्य विकरणप्रत्ययस्य योजनेन भव इति भूत्वा अधुना भवतु भवतां भवन्तु भव, भवतं भवत भव वानि भवाव भवाम एवं भवति पुनः एकवारं पश्यतु पठ इति धातु पठ तत्र धातु धातुरूपी अंगम इति अधुना अद्यदिने अहं धातु धातुरूपी अङ्गम् डेलिबरेट्लि ऐम् यूसिङ्ग् द वर्ड् धातुरूपी अङ्गम् किमर्थं भवन्तः सर्वे एतत् स्मरणे किञ्चित् स्थापयन्तु धातु, धातु, कि धातु यत् लट् लकारे वा लोट् लकारे वा विधिलिङ्गलकारे अनन्तरं वयं विधिलिङ्गलकारः लङ् लकारे तत्सर्वम् लकार, अग्रिमे पठिष्यामः परन्तु तत्र किं भवति मूलतः रूपं तथैव स्वीकृत्य प्रत्ययस्य योजनां कुर्मः इति नास्ति तत् धातोः अङ्ग धातुरूपी अङ्गम् इत्युक्ते धातु अधिकविकरणप्रत्ययः तत्र दशगणाः सन्ति सर्वेषां गणानां भिन्नभिन्नविकरणप्रत्ययाः सन्ति तेन अधुना अहं वारिगणस्य प्रथमगणस्य विषये एव वदामि तत्र अ इति विकरणप्रत्ययः अस्ति अधुना पठ इति धातु अ इति विकरणप्रत्ययः तत् पठ इति भवति हा पठतु पठतां पठन्तु पठ पठतम, पठत पठानि पठाव पठाम इति भवति अधुना गम इति धातु गम् इति धातु तस्य गच्छ इति अङ्गम् अधुना भवत्सु कोऽपि वदति वा गच्छतु गच्छन्तु गच्छ गच्छतं गच्छत गच्छामि गच्छाव गच्छाम एवं भवति धातुरूपी अङ्गम् अधिकं प्रत्ययं तेषां मेलनेन हा एकमेकं वयं वदामः अधुना सम्यक् अस्ति आगस्टो महोदय भवान् पश्य धातुरूपी अङ्गं स्वीकृत्य वदति वा रूपाणि भगिनि वदतु पश्यतु पश्यतां पश्यन्तु पश्य पश्यत पश्यत पश्यामि पश्याव पश्याम उत्तमम् इति पश्य इति दृश्यधातु तस्य पश्य पश्य इति अङ्गं भवति तेन पश्यतु पश्यताम् एवं सर्वं भवति सम्यक् उत्तमं भारतमहोदय भवान् लिख इति धातु स्वीकृत्य रूपाणि धातु अपि अंगम स्वीकृत्य रूपाणि वदति वा भगिनी सारी ऐ हेव् काल्ड् बट् ऐ हव् सोर् ओट् आल्सो हा वक्तुं न शक्नोति वा लिखतां uh, लिखन्तु uh, uh, <laughs> <laughs> <likhetam>, <laughs> उत्तमं लिखामि लिखाव लिखामि उत्तमम् अम्बिकापतिमहोदय भवान् वक्तुं शक्नोति वा स्मर स्मर इति धातुरूपी अङ्गं स्वीकृत्य वदति वा सर्वाणि रूपाणि स्मरतु स्मरतां स्मरन्तु स्मर स्मरतं स्मरत स्मराणि स्मराव स्मराम उत्तमम् उत्तमम् hmm? अजुना राधा भगिनी कां भगिनी जय जयतु oh. एवं वदति वा कां hmm? भगिनि जयतु जयतां जयतु hmm. जय जयतं जयत hmm. जयानि जयाव जयाम श्यामलाभगिनी त्यज इति धातुरूपी अङ्गं स्वीकृत्य वदति वा त्यज अस्तु भगिनि वदामि त्यजतु त्यजतां त्यजन्तु त्यजतं त्यजत त्यजानि त्यजा त्यजाम उत्तमम् अस्तु एतावत्पर्यन्तं सर्वं सम्यक् अस्ति वदतु हा नूतनतया का का भगिनी आगतवती अत्र अहं रमा, रमा, रमा, रमा, रमा, रमा भगिनी वा हा रमा भगिनी नमो नमः हा रमा, रमा भगिनी भवती तत्र तिष्ठ तिष्ठ सा धातोः तिष्ठ इति धातॄपी अङ्गं तत् करोति वा उत्तमम् इतोपि नूतनतया कोऽपि अस्ति वा कोऽपि वा कापि सर्वे उक्तवन्तः गीताञ्जलि अस्ति वा गीताञ्जलिभगिनी भवती मिल मिल इति धातुरूपी अंगम, मिलतु इति तत्वदतिवा. वदति वा मिला मिला मिला मिला, था, मिला था, मिला आ, हा मिलतु मिलता मिलतु मिला, मिलता मिलता मिलानि मिलाव मिलाम उत्तमम् अधुना मम एकः प्रश्नः यः कोऽपि इच्छति सह वक्तुं शक्नोति अत्र अहं धातु इति वदामि धातुरूपी अङ्गम् इति वदामि तस्य कारणं किं तदपि अहम् उक्तवती हा किमर्थं तप् दशगणेषु विभाजनम् अतः तत्र विकरणप्रत्ययस्य योजनेन धातु अधिकविकरणप्रत्यय तेन अङ्गं भवति अङ्गं स्वीकृत्य एव प्रत्ययस्य मेलनेन अधुना अहम् एकं रूपं वदामि तत् रूपमस्ति दण्डयतु अवधानं ददातु सर्वे दण्डयतु इति वदामि तत्र दण्ड इति दातु दण्ड इत्युक्ते तु पनिश् इति अस्ति सजादेना इति दण्ड तत् अहं वदामि दण्डयतु अधुना रूपाणि कीदृशाणि भवितुम् अर्हति दण्डय दण्डयतं दण्डयत दण्डयानि दण्डयाव दण्डयाम सम्यक् सम्यक् हा अत्र दण्डतु दण्डताम् न अभवत् कथं दण्डयतु दण्डयताम् दण्डयन्तु किमर्थं यत् य श्रूयते कोऽपि वक्तुं शक्नोति वा तत्र भेदः अस्ति खलु दण्डतु इति न दण्डयतु इति प्रेरणा प्रेरयति कलुबेली यकारं प्रेर ऐ मीन् प्रेरणा सूचयति इत्युक्ते तत्र प्रेरणार्थ इत्युक्ते तत्र यत्र यत्र य पर्टिक्युलर्ली य दृश्यते विशेषतया य तत्र चुरादिगणतः धातु चुरादिगण hmm. हा तत्र चुरादिगण अन्तिमः दश पश्यन्तु सर्वे अत्र चिन्ता मास्तु गीता गीतासोपानम् प्रथमः भागः तत्र गणानाम् विचार यत्र एवं सर्वं नास्ति परन्तु शनैश्चनैः तस्य अपि अवगमनं भवेत् इति विचिन्त्य अधुना अहं वदामि कः भेदः य इत्युक्ते तत्र प्रेरणार्थक चुरादिगणतः दण्ड इति धातु चुरादिगणे ये ये धातव अन्तर्भूतः तेषां कृते स्वार्थे स्वस्य अर्थस्य करनार्थम एव य इति आगच्छति अनुदा यदा अहं वदामि दण्डतु तत्र अर्थबोधः न जायते दण्डयतु तत्र यकार दशमः गण चुरादिगण एवं सर्वम् अन्तर्भूतः कथयतु कथा कथाकथनं कथा वयं सर्वे जानीमः कथयतु तत्रापि कथ इति चुरादिगणतः धातु दशमः गणतः धातु अतः तत्र य आगच्छति तथैव गणयतु हु? गणयतु तत्रापि किमर्थं सुरादिगण हा अधुना वयम् किं किं पठितवन्तः भ्वादिगणतः धातुः अस्ति चेत् यत् वयम् अधुना कृतवन्तः सर्वे तत् पश्य वा पठ वा हा एतत् सर्वं भादि भ्वादिगण तत्र अ एव अङ्गं भूत्वा लिख क्षमतां वद पठ एवं सर्वं भवति परन्तु दशमह गण गण, तत्र यकार आगच्छति अतः तत्र धातूपि यत् अंगम, धातोऽपि अंगे य अन्तर्भूतः तत् कार्यं कारयति इत्युक्ते तत्र पश्यन्तु सर्वेषां धातुनाम कृते तत्र प्रेरणार्थकरूपाणि सम्भवति सर्वेषां धातूनां कृते नो मेटर् गण एव परन्तु सर्वेषां धातूनां कृते अत्र भ्वादिगणे इति स्वीकृत्य अपि तत्र पठ पठतु पाठयतु पाठयतु इति भवितुमर्हति कदा यदा वयं प्रेरणार्थम् इति रूपं पश्यामः चेत् परन्तु क्षुरादिगणे ये ये धातवः अन्तर्भूताः तेषां कृते यकार तु भवति एव ह इति एक एतत् सर्वं वारं वारम् अहं वदामि हा अतीवमहत्त्वपूर्ण अंशः अस्ति करोति कारयति पठति पाठयति एवं सर्वं सर्वेषु स्थलेषु भवति वारं वारम् अहं वदामि यदा यू आर् डूयिङ्ग् द वर्क् करोमि ऐ एम् डुयिङ्ग् संथिङ्ग् अहं करोमि बट् इफ् ऐ एम् गेटिङ्ग् द वर्क् डन् कारयामि इती भावते, आ, पुना पुना एक बार अहम वना चिंता मस्त अदुना वैम कि एक सर्वंत पठन पठ पठत पठत पठा पठाव पठा लोट्ल तत्टकार अमति अस्याचना अस्त आज्ञा अस्त कृते भविचे निश्चय दर्शि एवं सर्व तो अब अधुना प्रथमपुर लेट् इस् स्टार्ट् फ्रोम् सिम्प्लेस्ट् प्रथमपुरुष पठतु एतादृशानि रूपाणि हा पठतु पठतां पठन्तु अत्र आगस्टो भवान भवान् तत्र पठतु पठतां पठन्तु एवं क्रियापदरूपाणि सन्ति क्रियापदस्य रूपाणि पठतु पठतां पठन्तु भवान् किं करणीयमस्ति अत्र समर्पककर्तुपदस्य योजनां करोतु अहं वदामि पठतु पठतु तदा कर्ता कः भवितुम् अर्हति पठताम् यदा वदामि पठताम् कर्तुरूपेण किं पदमागच्छति तत् वदति वा अधुना अहं लिखितवती पठतु पठतां पठन्तु प्रथमपुरुषरूपाणि प्रथमपुरुष एकवचन प्रथमपुरुषद्विवचन प्रथमपुरुषे बहुवचन अधुना भवान् कर्तृपदं पूरयतु पठयतु पठयताम् न न कर्ता कर्तु कर्ता सब्जेक्ट् इति कर्तुपदम् कर्तुपदं किं भवति पठतु इति क्रियापदस्य हा बहु सम्यक् बहु सम्यक् सः पठतु पठतां किं भवितुमर्हति पठतामिति क्रियापदस्य कृते उत्तमं बहु सम्यक् सः तौ ते उत्तमं बहु सम्यक् सः पठतु तौ पठताम् ते पठन्तु उत्तमम् अधुना मध्यमपुरुषस्य कृते वदति वा अधुना क्रियापदस्य अपि योजनां कृत्वा वदति वा त्वं किं भवति पठकृते त्वं पाठ उत्तम उत्तमपुरुषस्य विषये अपि वदतु कर्तुपदं किम् भवितुमर्हति बहु सम्यक् महोदय अधुना वाक्यं वाक्य वाक्यानि वाक्या रचयतु अहम् अहं पठामि बहु सम्यक् उत्तमम् अस्ति अत्र अहं पठामि अत्र यदा अहं पठामि इति तत्र आज्ञा स्वस्य कृते कथम् आज्ञा परन्तु यदा अहं वदामि अहं पठामि तत् मम निश्चय दृश्यते स्वस्य कृते अहं निश्चयेन अहं निश्चयेन वदामि हा अहं पठामि आवां पठाव वयं पठामः बहु सम्यगस्ति आवस्तु महोदय उत्तमम् अधुना धन्यवादः भारत भारतमहोदय भारतमहोदय वक्तुं न शक्नोति इति उक्तवान् वक्तुं शक्नोति वा वा आमाम् आम् अस्तु अस्तु अस्तु स्वास्थ्यं रक्षतु अस्तु अस्तु हा हा अम्बिकापतिमहोदय अम्बिकापतिमहोदय इदानीं भवान् भवान् अत्र वद इति धातु स्वीकृत्य हा अधुना किं करणीयं वद इति स्वीकृत्य प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष सर्वाणि वाक्यानि वदतु कर्तुपदस्य योजनेन कर्तुपदं क्रियापदम् सः वदतु तौ वदौ तौ वद वदतां ते वदन् वदन्तु अनन्तरं त्वं त्वं वद वतं वदं अहं <coughs> वदामि था? आवां वदा वयं वदाम सम्यक् उत्तमम् अधुना राधाभगिनी भवती मील इति वदति वा मील इति स्वीकृत्य धातुरूप्यङ्गम् आं एक केवलम् एकं अधुना मील वदतु राधा भगिनी अधुना सह इति भवेत एवं न भवती गीता मिलतु हा वा अत्र एवं वाक्यरचना अपि कर्तुं शक्नोति हा ओके सा सा आ, सा, मिलतु हा सा मिलतु ते मिलतां ताहा ताः मिलन्तु उत्तमम् उत्तमं पद्यं पुरुष उत्तमपुरुषपि वदतु त्वं मिल मिलतं मिलत अहं मिलानि आवां मिलाव वयं मिलामः मिलाम इति उत्तमम् उत्तमम् Haa. Syamla begini. Syamla begini. As tiba? Haa, begini. Takut sya le iti... Sya le iti suikruti wadah tiba. Ahamwadahami badani. Haa, wadah tu. Syarat tu, syarat tam, syarat tu. Haa, begini. वा भवान् वा भवतिवा, वा पुरुषः महिल वा महिला वा एवं कर्तुपदस्य स्थाने भवति यत् इच्छति चेत् इच्छत वदतु समर्पकदृष्ट्या वदतु चलामि चलामि च भगिनि चला, लट् लकार अत्र लोट् लकार इति अस्ति तत् लोट्लकारस्य तत् का किमस्ति लोट्लकारे प्रत्ययाः सन्ति oh. भूता अनि अव आम इति अस्ति चलैति धातुरूपी अङ्गम् अस्माकम् अद्यदिनस्य oh. विषयः अस्ति लोट्लकार तत् चलानि चलाम चलाम प्रथमपुरुषतः आरम्भं करोतु भगिनि चलतु चलतां चलन्तु मध्यमपुरुषः चल चार, चलति चार, चलति चल् चार, चलतं चलत तत्र मध्यमपुरुष एकवचनान्तं चल इति भवति तत्र प्रत्ययः नास्ति चल चल चलतम् अधुना कर्तुपदम् यत्तु यद् भवती उक्तवती तत् सर्वाणि क्रियापदानि सन्ति अधुना कर्तुपदस्य योजनाम् कृत्वा भवद् वा चलतु चलताम् चलन्तु तत्र किम् भवितुमर्हति भवान चलतु सह चलतु ah. अग्रिमे ah. सः चलतु अग्रिमे uh, सः स्व सः चलानि न तथा mm -hmm. कथमस्ति सः तौ ते त्वं युवां युयम् अहम् आवां वयं तत् किं भवति सः चलतु तौ चलतां सः चलतु सः चलतु तौ चलतां ते चलन्तु चल त्वं त्वं चल त्वं चल त्वं चल चलत युवां तलतं यूयं mm -hmm. चलत mm -hmm. आवां च न अहं चलानि अहम् अहं चलानि आवां चलाम आवां चलाम वयं चलाम आ, वयं चलाव वयम चलाम यू यूयं चलाम भगिनि वदतु अहं चलानि वदतु अहं चलानि चलावहं चलानि आवां चलाव वयं चलाम वयं चलामः एवमस्ति कर्तुपदं क्रियापदं सम्यक् दृष्ट्या तस्य योजना भवेत् अस्तु अवगतं श्यामला भगिनी स्पष्टमस्ति अस्तु भगिनि पश्टरमनस्ति हा इदानीं पृष्ट अधुना रमा भगिनी भवत्याः कृते तत्र वयं त्यज इति धातुः स्वीकुर्मः त्यज इति धातुकृते रूपाणि तु भवती कर्तुं शक्नोति कर्तुपदस्य योजना अपि भवेत् अधुना अहं किमिच्छामि कर्मपदमपि योजयतु कस्यापि तत्र प्रथमपुरुष मध्यमपुरुषः उत्तमपुरुष तत्र क्रियापदं स्वीकृत्य कर्तुपदं समर्पक् तत् योग्यं तस्य योजना करोतु अनन्तरं कर्मपदमपि वदतु <coughs> अस्ति वा रमा भगिनी रमा भगिनी नास्ति वा मम ध्वनि श्रूयते वा तत्र रमा भगिनी नास्ति वा तत्र नास्ति uh, अस्तु अस्तु राधा भगिनी भवती करोतु त्यज इति धातुरूपं स्वीकृत्य हा त्यज इति धातुरूपम् अङ्गम् अधुना अहं किमिच्छामि भवन्तः सर्वे अधुना सम्भाषणे किं करोति किं कुर्वन्ति कर्ता कर्म क्रियापदं त्रयाणां योजनां कर्तुं सर्वे समर्थाः इति अहं मन्ये तदा तस्य प्रमाणं ददातु वाक्यानि रचयन्तु आरम्भं करोतु राधा भगिनी त्यज इति धातुरूपम् अङ्गम् तदा यद् भवति तत् प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः तस्य चयनं करोतु भवत्याः सह फलं त्यजतु उत्तमं बहु सम्यक् बहु सम्यक् अधुना इतोपि एकं एकं फले त्यजताम् उत्तमम् अनन्तरं ते फलानि त्यजन्तु उत्तमं बहु सम्यक् अधुना मध्यमपुरुष uh, उत्तमपुरुषः अपि वदतु त्वम् फलं त्यज युवां फले त्यजतम् भूयं फलानि त्यजत अहं फलं त्यजामि आवां फले त्यजाव वयं फलानि त्यजाम अधुना अत्र पश्यतु राधाभगिनी अस्माकं चिन्तनं कथं फलं तु तत्तु सम् बहु सम्यक्रीत्या भवती उक्तवती परन्तु तत्र कर्म भवान् कर्म मा त्यज भवान् कर्म मा त्यज भवान् भवान लोभभावना लोभभावनां त्यज भवान् तृष्णां त्यज सम्यतां त्यजतु ह भवान् उदा एकवारं महोदय भवान् कर्मफल कर्मफलं त्यज त्यजतु भवान् कर्म मा त्यजतु भवान् ओभभावनां त्यजतु भवान् तृष्णां त्यजतु एकं सर्वं हा अपि बहुविधाः तत्र शब्दाः सन्ति तेषाम् अपि अस्माकं स्मरणं करणीयं सो तत्र ईदृशं वाक्यरचना तत्र प्रयत्नं करणीयमस्ति तत् सर्वे कुर्मः अधुना अस्तु धन्यवादः उत्तममस्ति धन्यवादः अधुना जयन्ती भगिनी जयन्तिभगिनी तत्र अथवा किञ्चित् तत्र वयं पश्यामः अत्र अहं अत्र अहं किं लिखितवती प्रदर्श तत्र किम् अभवत् प्र इति उपसर्श प्रदर्शयतु इति भगिनि कर्ता कर्म अस्तु भगिनी आम् रामः प्रदर्शयतु रामौ प्रदर्शयन् प्रदर् रामपि योजयतु कर्मपदमपि योजयतु आं रां रामः रामः प्रभावं प्रदर्शयतु रामौ प्रभावं प्रश प्रभावं प्रदर्शयतां रामाः प्रभावं प्रदर्शयन्तु त्वं प्रद त्वं त्वं प्रभावं प्रदर्शय uh, अधुना भगिनि तत् प्रभाव तु अभवत् इतोपि hmm. द्वितीयं कर्मपदं स्वीकृत्य वदति वा आम् त्वं शौशील्यं प्रदर्शय युवां प्र सौशील्यं प्रस प्रदर्शयता प्रदर्शयतं यूयं शौशील्यं प्रदर्शयत अधुना अहम् अहम् अहं वक्तुं शक्यते खलु बिन् अहं अहं प्रयतनं प्रदर्शय अहं प्रयत्तनं प्रदर्शयामि आवां प्रयत् प्रयत्नम् प्रदर्शयाव वयम् प्रयत्तनम् प्रदर्शयाम सत्यम् अत्र आगच्छन्तु तत्र निश्चयं प्रदर्शयतु भवान् निश्चयं प्रदर्शयतु वृथा भवान् वृथा सामर्थ्यं मा प्रदर्शयतु वृथा यत्र आवश्यकता नीथा प्रदर्शय भाव प्रदर्शय एक वाक्या भर्ती कर्ता कर्म क्रियापद अजुना वह संभाषणे त्र निचयन अग्रिमे गतवंत अत प्रयत्न करीय अस्त उत्तम अस्त धन्यवाद धन्यवादः हिताञ्जलि भगिनी भवती वक्तुं शक्नोति वा हा भगिनी अधुना भवती अत्र प्रेषयतु इति प्रेषयतु प्रेषय प्रेषयतां प्रेषयन्तु एवं सर्वं कर्ताकर्मपद क्रियापदम् इति प्रयुज्य वदति वा हा भगिनी सः नृत्यं प्रेषयतु सः नृत्यं प्रेष्य सारि तौ नृत्यं प्रेषतां ते तत्र प्रेषयताम् आगच्छति खलु प्रेषयताम् प्रेषयतां ते नृत्यं प्रेषयन्तु नृत्यमिति वदति खलु भवती नृत्यमिति वदतु वदति किं वदति भवती नृत्यं या नृत्यं भगिनि प्रदर्शयतु अभवत् प्रेषयतु भवान् उपहारं प्रेषयतु पुस्तकं प्रेषयतु सत्यम् उत्तमं वदतु तौ पुस्तकं प्रेषताम् Huh? प्रेषयतां ते hmm. पुस्तकं प्रेषयन्तु hmm. सम्यक् अधुना मध्यमपुरुषस्य hmm. कृते अन्य कोऽपि कर्मपदं यो, योजित्वा वदति वा हा भगिनी त्वम् उपहारं प्रेषत त्वं hmm. hmm. युवां युवाम् उपाहारं प्रेषतम् यूय प्रेषयतम् इत्यस्ति प्रेषयतं प्रेषयत ओके प्रेषयतम् यूयम् उपाहारं प्रेषयत उत्तमम् उत्तमम् अन्यकर्मपदं भगिनि आमां सेम् ओके तु हा वदतु अहं अहं पुस्तकं प्रेषयामि अहं पुष्पं प्रे पुष्पं पुष्पां प्रे वयं पुष्पं प्रेशयाम प्रेषयाम सम्यक् अत्र उत्तममस्ति अत्र भगिनी कथं कथमस्ति प्रेषय तत्र पुष्पम् इति विषय त वयं सर्वे वक्तुं शक्नुमः खलु तत् अहं देवपूजार्थं पुष्पं प्रेषयामि अहम् अभिनन्दनार्थं सपोज् यु वाचुलेट् अहं अभिनन्दनार्थं पुष्पं प्रेषयामि अस्तु अहं सन्देशं प्रेषयामि एवं सर्वं धन्यवादः धन्यवादः उत्तममस्ति अधुना अन्तिमं कृत्वा वयं कथाया अदर्वैस् इट् वुड् बि टु मच् फार् यू फार् ग्रामर् ऐ होप् यु आर् नाट् ब्रोर् न अम्बिकापथिमहोदय अम्बिकापति महोदय अत्र भवान् इतोपि एकः अंशः लेट् एस् इण्ट्रोड्यूस् वन् मोल् तत्र चल इति तत धातु तत् धातुरूपी अङ्गं चलतु एतादृशानि रूपाणि भवति तत् चलतु शब्दस्य कृते भवान् तु जानति तत् प्रथमपुरुषत् सः चलतु इति आगच्छति तत् वाक्यरचनां करोति वा कार्यानं चलतु अत्र किं भवति भवान् यत् उक्तं तत् सम्यक् एव कर्मपदं यदा तदा कार्यानम् एव भवति हा परन्तु अत्र चल इति यत् धातु अस्ति तस्य कृते पश्यन्तु चल इति धातु तत्र कर्मपदम् अस्ति वा टु वाक् इत्यस्य कृते कर्मपदमस्ति अकर। वा अकर्मः तत्र ट्राञ्जिटिव् इन्ट्राञ्जिटिव् वर्ब्स् इति अस्ति तत्र कर्म एव नास्ति किं चलतु हा कारयानं यथा भक् भवान भवान् तत् कथं भवति भवान् कारयानं चालयतु तत्र कारयानं स्वयं न चलति चालकः अस्ति भवान् कारयानं चालयतु इति भवति अकर्मक् सकर्मक् देट्स् वै ऐ ह् चोज़न् चलतु फार् यू हा सो अकर्म सकर्मक् अकर्म कर्म एव नास्ति कर्मपदम् एव नास्ति इन्ट्रान्सिटिव् ट्रान्सिटिव् सकर्मक् कर्मसहितम् आगच्छति चलतु अत्र वयं किं वक्तुं शक्नुमः यदि सः चलतु इति वाक्यम् अस्ति तदा वयं सः शनैश्चनैश्चलतु वा भवान् शनैश्चनैश्चलतु किं नाम शनैश्चनैः स्लोली स्लोली स्लोली स्लोली इत्युक्ते अहं क्रियायाः विषये वदामि क्रिया कथं भवेत् शनैश्चनैश्चलतु भवान् शनैश्चनैश्चलतुयाः विषये अहं वदामि तत् हेड्व इति वयं जानीमः खलु क्रियाविशेषं क्रियायाः विषय जस्ट् वाु इण्ट्रोड्यूस् दिस् वारं वारम् अग्रिमे वर्गे अपि तत्पश्चादपि वदामि हा तत् अस्तु तत् चलतु इति क्रियाविषये अधुना अम्बिकापतिमहोदयम् एकं भवान् एकेवं करोतु तत् अहं प्रक्षालय इति प्रक्षालयन् प्रक्षा इति अधुना वाक्यरचनां करोतु तत्तु सकर्मक अस्ति प्रक्षालयतु कृपया सम्यक् ताम् इति अस्ति चेत् प्रक्षालयताम् त्वां त्वां पात्राणि पात्रौ प्रक्षालयतौ तत् त्वम् इति पश्यतु क्रमेण गच्छामः प्रक्षालयतु प्रक्षालयताम् तत्र सः तौ प्रक्षालयताम् इति भवति सः अधुना किं भवति प्रक्षालयन्तु उत्तमं मध्यमपुरुषस्य कृते वदति वा पात्रं प्रक्षालय ah, उत्तमम् उत्तमम् uh, युवां पात्रा पात्रौ प्रक्षालय तत्र पात्रे पात्रं पात्रे द्विवचनान्तं यदि भवति चेत् पात्रे वा पात्राणि पात्र प्रक्षालयतम् पात्राणि प्रक्षालयत सम्यक् अग्रिमे अहं वस्त्रं प्रक्षालयामि प्रक्षालय आवां वस्त्रौ प्रक्षालय प्रक्षालयाव तत्र वस्त्रौ न भवति किन्तु कथमपि वस्त्रमिति न पुसकलिङ्ग् खलु तत् वनं वने वनानि फलं फले फलानि पुष्पं पात्रे प्रक्षालयाव इति वस्त्राणि प्रक्षालयाम उत्तमं सम्यक् सम्यक् उत्तमं अधुना अस्माकं कथापठनस्य समयः तत्र गच्छामः कथायाः पठनं भवेत् दृश्यते स्क्रीन् दृश्यते राधा आरंभम एव एव रामदास स्वामी महाराष्ट्र वामी महाराष्ट्रराज्ये जापुर शिवमहाराज से गुरुहु महाज्ञानी कवि लेखक ुमतोः भक्तः च रामदासस्वामीराज्ये जातः शिवमहाराजस्य गुरुः रामदासस्वामी महाराष्ट्रराज्ये अस्ति सः सिद्धपुरुषः शिवमहाराजस्य तत् शिवाजीमहाराजस्य गुरुः अपि आसीत् महाज्ञानी आसीत् कविः लेखकः अपि आसीत् रामहनुमानस्य भक्तः अपि आसीत् रामस्य भक्तः हनुमतः हनुमान् इति शब्दः तस्य हनुमतः इति भवति षष्ठी अस्तु अग्रिमं वाक्यमपि पठतु राधा भगिनी चिन्तनं नामस्मरणं च कर्तुम् उद्यतः रामदासः सर्वदा स्थितप्रज्ञः इव भासते स्म रामदासस्वामी चिन्तनम् अथवा नामस्मरणं कर्तुं समये स्थितप्रज्ञा एव दृश्यते किं नाम स्थितप्रज्ञः इव भासते स्थितप्रज्ञः इत्युक्ते यस्य प्रज्ञा स्थिता स्थिरबुद्धि सामान्यतया यदा सः चिन्तने निमग्नः नामस्मरणे निमग्नः तदा सः स्थितप्रज्ञः इव मेरि बेलेन्स् काम् पर्सनालिटि इव भासते स्म भासते स्म इत्युक्ते भूतकाले रामदासस्वामी इदानीं हि इस् नो मोर् सः अधिकं गतः परन्तु तस्मिन् काले भासते स्म इतोपि एकं वाक्यं पठतु अनन्तरम् अन्यकोपि अग्रिमे अपि एक पठतु एकदा, एकदा तस्य कस् कश्चन शिष्यः तम् अपृच्छत् आर्य यदा भवान् नामस्मरणं करोति तदा कथं पितावान् शान्तभावः भवतः मुखे भवति एकदा, एकदा तस्य शिष्य पृच्छति भवान् नामस्मरणं करोति तत्समये तस्य मुखे शान्तभावः अस्ति ते कथमस्ति तत् किं किं कारणं तत्र अस्ति इति तत्र वयम, वयम सर्वे यदा नामस्मरणे निमग्न तदा किलां प्रचल इधंकम्छति मम मैं मा, मा, त्यमस्तुना रात्रो अहम कि शह किमी एक मन से आगता हाँ एक आगे तत्ते सर्वे विचारा आगता परमदासमी स्वामी, स्वामी विषय किं दत्मस् कथं विचलितं न भवति एतावान् शान्तभावः भवतः मुखे कथं भवति इति प्रश्न शिष्यस्य प्रश्नम् अस्तु धन्यवाद। धन्यवादः अधुना अग्रिमे भवतः मनः ततः आरभ्य श्याम्ला भगिनी पठतिवा वा भवतः मनः अस्तु भगिनी अहं पठामि भवतः मनः कथं विचलितम् न भवति अस्माकं मनसि तु अनेके विचाराः अनेकाः इच्छाः च आगच्छन्ति नामस्मरणसमये कथं भवतः मनसः विचाराः किञ्चिदपि न दृश्यन्ते मुखे hmm. किं दत्तमस्ति अत्र स्वशब्दैः ah. प्रयत्नं करोति वा शिक्ष सर्वस्य विचारः तत् किमस्ति वदतु हा अस्माकं मनसि तु अनेके विचाराः अनेकाः इच्छाः च आगच्छन्ति नामस्मस्मरणसमये कथं भवतः मनसः विचाराः किञ्चिदपि न दृश्यन्ते मुखे नाम नाम नाम स्मरणं करोति समये कथं मुखः मनसि विचाराः न अस्ति न अस्ति इति न सन्ति नामस्मरणसमये कथं किञ्चित् के इति ह्यः वदति शिष्यः वदति hmm? नामस्मरणे यदा यदा भवान् नामस्मरणे निमग्नः तदा स्थितप्रज्ञा इव न विचारः वा न कापि इच्छा न दृश्यते hmm. इति मुखे अपि न दृश्यते इति तस्य hmm. तस्य प्रश्नः खे न दृश्यते इत्युक्ते तत्र मनसि एव न आगच्छन्ति इति विचारा तदा एव मुखे किमपि न दृश्यति इति अस्तु अस्तु धन्यवादः भगिनि अग्रिमे भवान् पठति वा तदा समर्थः अवदत् तथा आरभ्य पठति वा तदा समर्थः अवदत् दौ एकां घटन् गातन, घटनां श्रावयामि सावधानं hmm. तु hmm. एकदा कस्यचित् प्राज्ञः प्रासादात् बहिः कश्चन भिक्षुकः उपस्थितः तदीयं वस्त्रं जीर्णं भिक्षुकः बहुभ्यः दिनेभ्यः बुभुक्षितः इति तु स्पष्टमे स्पष्टमेव परन्तु भिक्षुकस्य नेत्रे तेजसा पर्याप् अधुना स्थिति का शिष्यः प्रश्नं पृच्छति कथं नामस्मरणसमये अन्यविचाराः वा इच्छाहा वा अन्यविचलितं भवतः मनविचलितं कथं न भवति इति तस्य प्रश्नस्य आशयः तदा समर्थ, समर्थः इत्युक्ते रामदासस्वामी एकां घटनां श्रावयति श्रावयति अत्रापि किं भवति श्रावयति हा श्रृणोति श्रावयति इति इत्युक्ते सः वदति अन्यान् श्रावयति इति सावधानं शृणु शृणु लोट्लकार मध्यमपुरुष एकवचन गच्छ वद पश्य तृणु इति अत्र शृणु इति आगच्छति कि किमर्थं तत्र श्रु धातोः कृते यत् गणस्य विकरणप्रत्ययमस्ति तत् आगच्छति अतः शृणु इति न एवम् एकदा कस्यचित् राज्ञः प्रसादात् बहिः उपस्थित राजद राजदेस राजदा बही कचन भिकुक यहां याचयती सह भिकुक उपस्थित भिक स्थित का त्रिमे वाक्य दत्मस्ती जीर्ण वस्त्र वस्त्र वसनम की जीर्ण जीर्ण विशेषण वस्त्र वस्त्र की जीर्णक्लोच भिक्षुक आ बहुभ्य दिने मुखदर्शन वयं ज्ञातुं शक्नुमः सः बुभुक्षितः बुभुक्षितः मेरी हङ्ग्री बुभुक्ष्या इति हङ्गर् भिक्षुकः बुभुक्षितः कथम् आ बहुभ्यः दिनेभ्यः आबहुभ्यः दिनेभ्यः भिक्षु बुभुक्षितः आ बहुभ्यः दिनेभ्यः इत्युक्ते बहु दिने किं कोऽपि वद् वक्तुमिच्छति फार् मेनि डेस् आ बहुभ्यदिनेभ्य ऐट् हङ्ग्री बुभुक्षितः इति तु किमपि न खादितवान् आसीत् सः इति स्पष्टतया दृश्यते इति तु स्पष्टमेव परन्तु भिक्षुकस्य नेत्रे तेजसा प्रदीप्ते दृष्टे इत्युक्ते तत्र नेत्रे नेत्रे इति किं नेत्रं नेत्रे नेत्राणि ऐस् बोथ ऐस् इति ड्युएलि द्विवचनमस्ति यथा वनं वने वनानि फलं फले फलानि नेत्रं नेत्रे नेत्राणि नेत्रे तेजसा प्रदीप्ते दृष्टे तेजसा प्रदीप्ते इत्युक्ते तेजसा इति यतो हि भिक्षुकः बुभुक्षितः तस्य नेत्रे दृष्टे नेत्रे तेजसा प्रदीप्ते दृष्टे एतावत्पर्यन्तम् इति कथा रामदास्वामी श्रावयति अस्तु धन्यवादः ओगस्ट् महोदय अधुना अग्रिमे गीताञ्जलि भगिनी धन्यवादं गीताञ्जलि भगिनी भवती पठतिवा, वा शारीरिककष्टं सहमानः पठामि भगिनी शारीरिककष्टं सहमानः सः कथं वा तत्र भगिनी स्मृति स्थातुं शक्नुयात् इति न ज्ञायते स्म भगिनी केन् ऐ गो हा आमां पश्यतु शारीरिक शारीरिककष्ट सहमानः सः कथं कथं वा तत्र शारीरिककष्ट सहमान हीस् टालरेटिङ्ग् पेन् बाडि पेन् स्तोतुं शक्नुयात् इति न ज्ञायसे स्म हौ वी केन् टालरेट् आं सत्यम् जीर्णानि वस्त्राणि धारयति तथा अपि सः शारीरिककष्टसहमानः यथा भवती उक्तवती तथा कथं तत्र स्थातुं शक्नुयात् इति न ज्ञायते स्म इट् वास् डिफिकल्ट् टु अण्डर्स्टेण्ड् कथं सः तत्र स्थातुं शक्नुयात् इति समये सा सम्राट् राजभवनात् बहिः गत्वा भिक्षुकम् अपृच्छत् किमिच्छसि भोः इति तस्मिन् समये राजा बहर्ग गतवान् पृच्छति अपृच्छत् किम् इच्छसि बाड्यू वाण्ट् लैक् दट् नो भगि नेम् किमिच्छसि इति लकारपुरुषवचनविषये वदति वा इच्छसि मध्यमपुरुष एकवचन इच्छसि किम् इच्छ किमिच्छसि भो इति हा इतोपि एतत् किं पठतु हा भिक्षुकः भिक्षुकः प्रत्युदत्तरत् प्रत्यु प्रत्युत्तरत् एतादृश्यां परिस्थिता परिस्थित्यां किमर्थम् अहमत्र तिष्ठान् अस्मि परिस्थित्यां किमर्थम् अहमत्र तिष्ठम् अस्मि अस्य अर्थं यदि भवान् न जानाति तर्हि अहमपि एतस्य विषये किमपि वक्तुं नेच्छामि तावत्पर्यन्तम् अधुना विवरणं ददातु भिक्षुकस्य उत्तरं किमस्ति इति एतत् परिस्थितिः मीन्स् भिक्षुकस्य परिस्थितिः कार्द्राणि भिभुक्षकः तत्र तं का हिन्दी भगिनी किमर्थं प्रयत्नं चिन्ता किमर्थं हा आङ्ग्लभाषायां वदतु हिन्दी भाषायां वदतु हा भगिनी इन्दि परिस्थितिः हौ हि के स्टे वट् के ही डु लैक् तत्र वोट्ययीडु अहमत्र तिष्ठन् अस्मि किमर्थम् अस्य अर्थं यदि भवान् न जानाति तर्हि अहम् अपि एतस्य विषये किमपि वक्तुं नेच्छामि इति किमर्थम् अहमत्र तिष्ठन् अस्मि इत्युक्ते वै किमर्थं वै ah uh, aham martavai only me standing like this ha satyam asya uh, artham agrime asya artham eti bhavan na janati tari aham api etasya vishe kim api vaktum nischami hm that means uh hmm. you don't know hm इच्छामि ऐ डोन् करेक्ट् इत्युक्ते तस्य मुखदर्शनात् एव कोऽपि ज्ञातुं शक्नोति सः बहु तस्य रूपं दृष्ट्वा कोऽपि ज्ञातुं शक्नोति जीर्णानि वस्त्राणि सः दरिद्री अवस्थायाम् अस्ति इति ऊहमानम् कोऽपि कर्तुम् शक्नोति तत् किमर्थम् प्रश्नः किमिच्छसि भोः अहम् किम् इच्छामि तत् मम रूपदर्शनात् मुखदर्शनात् स्पष्टमेव एतादृश्याम् परिस्थित्याम् अहमत्र किमर्थम तिष्ठन् अस्मि यदि भवान् न जानाति भवतः अवगमनम् न भवति माम, दृष्ट्वा तदा इवन् से डोट् इति अहमपि एतस्य विषये किमपि वक्तुम् नेच्छामि नेच्छामि न ने इच्छामि यदा okay. भवान न जानाति तदा अहमपि न वदामि इत्युक्ते सह किं चिन्तितवान् भिक्षुकः किं चिन्तितवान् गीताञ्जलिभगिनी सः मम मुखदर्शनान् भान ज् शक्नो मम अवस्था का मम मोबिति का अहम की कि अत्र अहम ठाव अस्ट अस्कंक अस्टाल अस् लोकरक्षण तम ज्ञा शक्नो राजा तो सर्व शक्नो अपेक्षा अ तोरी अहम कि यदि कोपक्षि अस्मक समी अस्मा पुत आगे तर मुखदर्शना जानी अस्त सह तो किन दृश्य तदा कर्तव्यदृष्ट्या कि भोजन व भोजनस्य भोजन से दानम करीय इतमी अहम न वादा तश्ने व्यर्थताच प्रश्नेव व्यर्थता दृश्य त्रिष्णुक मुखदर्शनाव जनपाल लोकनायक भूपति एवं राजा ज्त अहमपि यदा न जानाति तदा अहमपि किमपि वक्तुम न इच्छामि इति सह वदति स्पष्टमस्ति अस्तु अधुना एतावत्पर्यन्तम् एतावत्पर्यन्तं वयं पठितवन्तः अधुना तत्र आरम्भतया रामदासस्वामी सः शान्तभावं धारयति नामस्मरणसमये तदा तस्य शिष्यः अपृच्छत् अनम सह एका, एकाम कथाम, एक कथा तत्वती कथा आरंभ कौती तिक्षुक विषय सह पिस्थित कि वक्त नेछा तवत्म वो पढ़ितवतु कॉपी तस्वैद वदी वर्म किशब मध्ये मध्य आंग्लभाषाया हिंदी भाषा प्रयोग जाए थे सम्यक् परन्तु संस्कृतेन वदतु वक्तुमिच्छति वा एतावत् पर्यन्तं समरीति किमभवत् इति वदतु नो चेत् अहं नाम्ना आह्वयामि प्रयत्नं करोतु कोऽपि न इच्छति मम प्रश्नः अवगतः वा प्रे, प्रयत्नं करोतु प्रयत्नं करोतु अम्बिकापतिमहोदय जयन्ती भगिनी प्रयत्नं करोतु एतावत्पर्यन्तं किम् अभवत् हरि ओम् किम् अभवत् आम् बेनि हा प्रयत्नं करोतु एतावत्पर्यन्तं किम् अभवत् किमपि वक्तुं नेच्छामि तावत्पर्यन्तं किम् अभवत् कथायाम् महाराष्ट्राराज्ये एकः दास भक्तिमान् अस्ति सः भक्तिमान् जातः तस्य नामः रामदासस्वामी ः शिवमहाराजस्य तस्य गुरु शिवमहाराजः सः महाज्ञानी महापण्डितः कविः लेखिकः रामहनुमान् भक्तः अपि अस्ति सर्वदा रामस्मरणम् एव कर्तुम् स्थितः सः एकदा तस्य शिष्यः एकदा तस्य कश्चन शिष्यः स्वामी आर्य यदा भवान् नामसरणं सर्वदा करोति खलु वयं नामस्मरणं करो करोति कर्तुं समये अस्माकं प्रज्ञा एक स्थले न स्थिता भवति भवन्त भवतस्य प्रज्ञा कथम् एक एकस्मिन् विषये स्थिता भवति इति पृष्टवान् तदा mm -hmm. सः उक्तवान् तदा अवदत् आदौ एकं mm आरम्भे -hmm. एक एकघटनां एक श्रावयामि एतस्य विषये अहं श्रावयामि जाग्रकतया शृणु इति उक्तवान् एकदा कश्चित् राज्ञा राजा राजा अस्माकं प्रसादस्य बहिः गतवान् एक भिक्षुम् दृष्टवान् तदा तस्य समीपं गत्वा पृष्टवान् भिक्षुकस्य वस्त्रम् तस्य स्वरूपं दृष्ट्वा एव सः जानाति mm. सः बहु कष्टम् अनुभवति इति आरम्भतः ते आबहुभ्य दिनेभ्यः भुक्षु भिक्षु भिक्षुकित्य सारि इति तु स्पष्टम् एव सः बहुदिनस्य दिने सम्यक् भोजनमपि न कृतवान् इति पश्यति एव परन्तु भिक्षुकस्य नेत्रे तेजः तेजस् तेजस्वी अस्ति सः भिक्षुकः बहु तेजस्वी अस्ति शारीरिककष्टं सहमानः सः कथं वा तत्र इति चिन्तितवान् राज्ञः स्थातुं शक्नुयात् इति न ज्ञायते स्म तस्मिन्नेव समये साम्राट् राजभवनात् बहिः गत्वा भिक्षुकम् अपृच्छत् भिक्षुकस्य समीपं गत्वा राज्या राजा पृष्टवान् किमिच्छसि भो भगवान् किम् इच्छसि इति भिक्षुकः प्र उत्तरं ददाति प्रति उत्तरं ददाति एतादृशं परिस्थित्यां किमर्थम् अहमत्र तिष्ठन् इति अस्य अर्थ इति भवान् न जानाति तर्हि अहमपि भी एतस्य विषये किमपि वक्तुं न इच्छामि यदि भवान् न जानाति चेत् अहमपि न वक्तुम् इच्छति इच्छति इति भिक्षुकः उक्तवान् अद्य अतः अहं भवतः पुरतः यद् अस्मि तद् किमर्थम् किम् इच्छामि तावत् वयम् एक अग्रिमे वयं पठामः परन्तु अत्र विषयः कः यदि सर्वं स्पष्टतया यदा यदा दृश्यते तदा वचनस्य का आवश्यकता वचनस्य नास्ति सर्वं स्पष्टमस्ति अतः सः वदति किमपि वक्तुं न यच्छामि उत्तमतया प्रतिपादनं कृतवती परन्तु एकम् अत्र वक्तुम् इच्छामि किमच किमचि भोः यत् अस्ति इति सम्बोधनं भगवतः कः अपि पुरुषः तत्र भो भवतः नाम किम् अत्र कुतः आगतः सम्बोधनम् इति अस्ति अत्र इति मूलतः शब्द भुभुक्षा हङ्गरी हङ्गर् इति क्षम्यतांगर् अनन्तरं पातुमिच्छतिपा पिपासीत इति इत्युक्ते थर्टि इति एता उत्तमतया भवती उक्तवती सम्यक् अधुना विषयः भवतां प्रति गच्छामः उत्तमं धन्यवादः भगिनि अधुना अहं भवतः तथा आरभ्य अम्बिकापतिमहोदयः भवान् पठति वा अहं भवतः पुरतः तथा आरभ्य अस्ति वा अम्बिकापति महोदय सोरि ऐ वा म्यूटेण्ट् सोरि अहं अहं भवतः पुरतः यत् अस्मि तत् किमर्थम् अहं किम् इच्छामि मम परिस्थितिः कीदृशी इत्यादिकं स्वयमेव ऊह्येत चेत, मम उपस्थितिः एव मम प्रार्थना इति एतं प्रसङ्गम् अवलोक्य देवनाचनात् नाचनां एव अहं अत्यजम् एकनिशं प्रत्युदर्तर, हा अधुना भिक्षुकः प्रत्युदतर प्रत्युदतरत् एतादृश्यां परिस्थितिं किमर्थम् अहमत्र तिष्ठन् अस्मि अस्य अर्थं यदि भवान् न जानाति तर्हि अहमपि किमपि वक्तुं न इच्छामि हा तत् अहं भवतः पुरतः यत् अस्मि तत् किमर्थम् अहं किम् इच्छामि मम परिस्थितिः कीदृशी इत्य अधिकम् स्वयम् एव उहे चेत् मम उपस्थितिः एव मम प्रार्थना एतत् सर्वं भिक्षुकस्य वचनं भिक्षुकः राज्ञं प्रति किं वदति यदा मम प्रदर्शनं मम दर्शनं मम रूपं मम परिस्थितिः वा मम इच्छा वा विषये न बोधयति त्वं न जानासी तदा अहं वक्तुम् न इच्छामि मम परिस्थितिः कीदृशी इति स्वयम् एव ऊहे चेत् इत्युक्ते भवान स्वयम् एव अनुमानम् करोतु अहम् किमर्थम् अत्र तिष्ठामि मम उपस्थितिः एव मम प्रार्थना अहं राज्ञः पुरतः राज्ञः प्रासादात् प्रासादस्य पुरतः राजभवन से अपस्थिता अहम कि स्पष्ट मथिति वो पिस्थित भाजपी तदा अहम इतम प्राथना कौ उपस्थित एवं मा प्रथना अंबिपतिमदय अ किम् इच्छति इति भवान् वक्तुं शक्नोति वा किम् इच्छति सः स्वयमेव स्वयम, ऊह्यते स्वयम ऊह्यत हा स्वयम् एव ऊहेत् इत्युक्ते राजा स्वयम् एव अनुमानं कुर्यात् इति इत्युक्ते सः बुभुक्षितः सः अन्नमिच्छामि तस्य वस्त्राणि जीर्णानि सः वस्त्रमिच्छति एवं सर्वं राजा स्वयम् एव तस्य अनुमानं कुर्यात् इति भिक्षुकस्य इच्छा एवं खलु स्वयम् एव ऊहेत् स्वयम् एव अनुमानं कुर्यात् चेत् वरम् नो तु किमपि न वदामि मम उपस्थितिः एव मम प्रार्थना स्पष्टमस्ति अम्बिकापतिमहोदय एतावत्पर्यन्तं अधुना अग्रिमे अपि वाक्यद्वयं पठतु एतं प्रसङ्गम् अधुना एतं, एतं प्रसङ्गम् इति राम्दास्वामी वदति हा एतं प्रसङ्गम् अवलोक्य एतं प्रसङ्गम् अवलोक्य देवयाचना एव अहम् अत्यजम् अत्यजम् त्यजम् इति रामदास्वामी वदति एवं सर्वम् इति कथा भिक्षुकस्य विषये एतत् प्रसङ्गम् अवलोक्य तस्य अवलोकनं कृत्वा अहं किं कृतवान् इति राम्दास्वामी वदति देवयाचना इत्युक्ते देवस्य पुरतः अहं याचनां न करोमि याचनायाः त्यागम् अहं कृतवान् अहं किमपि न वदामि अहं याचनां न करोमि अहं प्रार्थनां करोमि परन्तु याचनां न करोमि इति रामदास्वामी उक्तवान् अग्रिमे पठतु सर्वदा सर्वदा अहं परमेश्वरस्य द्वारे तिष्ठामि शान्तभवे भवेन स्थित्वा नाम मम स्थितिः तावत्पर्यन्तम् अत्र किं वदति सर्वदा अहं किं वदति दास्यामि स्मरणमेव करोमि हा शान्तभावेन तत्र मनसि एक आशा वा इति आशायाः इच्छायाः त्यजनं शान्तभावेन कस्य अपि तत्र कस्यापि याचनाकेन केन प्रकारेण अपि याचनां न करोमि परमेश्वरस्य द्वारे तिष्ठामि परमेश्वरस्य द्वारे इत्युक्ते उप उप समीपं तत् अहं गच्छामि परन्तु याचनां मास्तु शान्तभावेन स्थित्वा नामस्मरणं करोमि अधुना अग्रिमं वाक्यं मम स्थितिः पठतुः एव तम पदतेक्षां वक्तुं न यदि शक्नोति तर्हि शब्दैः कथनेन किम् अतः एव विश्वासः भावपूर्वं पूर्णः पूर्णं पूर्णः भवेत् सर्वदा मनोभावेन कृतं नामस्मरणमेव महत्त्वपूर्णं तेन याचनाय आवश्यकया एव न भवति अधुना किं वदति मम स्थितिः एव तं मत् अपेक्षां वक्तुं न यदि शक्नोति तर्हि शब्दैः कथनेन किम् देवः परमेश्वरः ईश्वरः सर्वज्ञः सर्वं जानाति सह सर्वज्ञः सह ज्ञातुं शक्नोति मत् अपेक्षां वक्तुं न यदि शक्नोति मम स्थितिः एव तर्हि शब्दैः कथनेन किम् यदा सः न ज्ञातुं शक्नोति तदा मम शब्दैः अहं किमपि शै कथन कि साधया हा भगवा अस्टी तत्व से का आवश्यकता अत्वास भावूर्ण भेज सर्वदा मनसी तथा विश्वास प्राथना करीय विश्वासः भावपूर्ण भवेत् सर्वदा मनोभावेन कृतं नामस्मरणम् एव महत्त्वपूर्णं महत्त्वपूर्णं किम् नामस्मरणं परमेश्वरस्य <laughs> नाम महत्त्वपूर्णम् मम इच्छा मम आकाङ्क्षा मम याचना तस्य किमपि अत्र महत्त्वं नास्ति नामस्मरणं मनोभावेन भगवतः नाम, नाम, मनो भगवत नाम एव सर्वश्रेष्ठः तेन याचनायाः आवश्यकता एव न भवति भगवान् सर्वं जानाति याचनायाः आवश्यकता एव नास्ति शब्दैः किमपि साधितुं न शक्नोमि इति तस्य भावः स्पष्टमस्ति वा अधुना राधाभगिनी किञ्चित् विवरणं करोतु मम स्थितिः एव तत् इत्युक्ते तत्र वाक्यांशः इति न परन्तु कः भावः वदतु स्वशब्दैः रामदास स्वामी वदति यदि मम स्थितिः पश्यन् न जानाति किं मम इच्छा अस्ति तर्हि वक्तुं आवश्यकम् आवश्यकं इच्छामि इति वक्तुं आवश्यकम् कारणम् ईश्वरम् ईश्वरस्य ध्यानं आ, विश्वासेन ध्यानपूर्वकम् अहं यदि करोति चेत् तर्हि भगवान् सर्वव्यापि अस्ति सर्वजानाति याः अनुसरेण भगवान् एव स्वयं ददाति मम योग्यता योग्यतायाः विषये भगवतः चिन्तनम् तत् सम्यक् अहं सर्वं प्राप्नोमि शब्दैः का इति अस्तु स्पष्टमस्ति रमा भगिनी तत्र अस्ति क्षम्यतां रमा भगिनी अहं चिन्तितवती भवती लेफ्ट् अभवत् इति क्षम्यता अधुना वदति वा किञ्चित् सारांशरूपेण कथायाः विषये वदति वा परिपूर्णतया मम चिन्तनं वयं पृच्छामि चेत् लघु एव वयं पृच्छामि भवान् भा, सर्वं जानाति परमपुरुषः परमपुरुषः एव वयं वयं न पृच्छामि इत्युक्ते सः व्यापकः सर्वव्यापकः अस्माकम् अस्माकं कृते किम् उचितमस्ति सर्वं इति हा तत्र अच्ट्रु न्यूनता अस्ति परन्तु तस्य बृहत् अस्ति बृहत् उत्तमम् उत्तमम् अस्ति राम उत्तमं धन्यवादः अन्य कोऽपि वक्तुम् इच्छति वा जयन्ती भगिनी अम्बिकापतिमहोदय गीताञ्जलिः वदतु वदतु पुत्रस्य हितार्थं पिता स्वयं सर्वं करोति तावदेव mm. अस्माकम् अन्तरात्मा भूत्वा परब्रह्मम् एव परब्रह्मं, परब्रह्मं स्थितः सः जानाति वयं mm. किम् अर्हता भवति भूत्वा mm. जीवनीयम् इति सः mm. किमपि सः ददाति तत् mm. स्वयं प्रसादम् इति भूत्वा वयं स्वीकरणीयम् उत्तमं बहु सम्यक् बहु सम्यक् अम्बिकापतिमहोदय धन्यवादः वदतिवा? वदति वा एकाग्रचिन्तनया चिन्तयापूर्वं भवान् स्मरेत् सर, सर्वं प्राप्तुं शक्नोति भगवतः स्मरणं एव सर्वं ददाति इति उचितं यत् उचितं तत् सः स्वयम् एव ददाति उत्तमम् अस्तु बहु सम्यक् अस्ति अधुना भारतमहोदय वक्तुं न शक्नोति अहं वदामि हा हा वदतु वदतु वदतु वदतु श्यामला भगिनी कलियुगे नामस्मरणमेव फलम ददाति अतः <coughs> यः नामसङ्गीतं करोति यः नामस्मरणं करोति सः बहु।, बहु बहु बहु हि गेट्स् आल् माट् एव हि प्रेस् प्रार्थना किं किं कुर्वति स तत् mm. ददाति <laughs> mm. नामस्मरणं फलदायी भवति इति अस्तु लाभदायिफलदायि भवति उत्तमम् उत्तममस्ति सर्वेषां सारांशरूपेण ये ये उक्तवन्तः तत् सर्वं सम्यक् अस्ति नैके धन्यवादाः अधुना शान्तिमन्त्रेण अम्बिकाभजे महोदय शान्तिमन्त्रेण समापयाम भवान् वदति वा शान्तिमन्त्रं सर्वेषां स्वस्ति सर्वेषां शान्तिर्भवतु सर्वेषाम् पूर्णम् भवतु सर्वेषाम् मङ्गलम् भवतु सर्वे भवन्तु सुखिनः सर्वे शान्तु निरामया सर्वे भद्राणि पश्यन्तु कश्चित् दुःखभाग् भवेत् ॐ शान्तिशान्तिशान्तिः श्रीगुरुभ्यो नमः हरिः ओम्